हरि श्री श्रीजगदम्बिकाय नमः अथ श्रीमद्देवी भागवत तृतीयस्कन्धे त्रिंशोऽध्यायः व्यास उवाच एवं तव संविधं कृत्वा यावत्तुष्टिं बभूवतु अजगाम तदाकाशान् नारदो भगवान् ऋषि अनयन्मा वीणां स्वग्रामविभूषिताम् गायन् धृह्रथम् सामतदा तम् उपतस्थिवान् राम तं राम उत्थाय आसनं अथम् आसनम् चार्घपाद्य कृतवान् तद्युतिः पूजापर्मिकाम् कृत्वा पूजाञ्जलि उपस्थिते उपविष्ट समीपे तु कृतज्ञो मुनिना हरि उपविष्टम् तदा रामम् तप्रच्छन्नार्दप्रीत्या कुशलम् मुनिषत्तमा कथं राघवशो कातो यथा भूयि प्राकृतो नरः रुतां सीतां च जानामि रावणेन दुरात्मा सुरमयगतश्चाहं श्रुतवान् जनकात्मजां पौलस्य नरुतां मोहान्मरणं तव जन्मा च काकुस्थपौल निधनाय वै एतदर्थं नराधिपय पूर्वजन्मनि वैदेही देहि पुत्री तपस्विनी रावणेन वने दृष्टा तपस्यन्ति शुचिस्मिता प्रार्थिता रावणे नाशो भव भार्ये तिराघव तिरस्कृतस्तया सौ वै जग्रह कवरं बलात् शशाप तत्क्षणं राम रावणं तापसि कुपिता त्यक्तुमिच्छन्ति देहं संस्पर्श दूषितम् दुरात्मन् नाशासं नाशासम्भविष्यामि धरातले अयो निजा वरा ना चक्वा देहं जहोऽपि श्रीयं रमांश सम्भूता गृही ता रक्षत विनाशार्थं कुलस्यैव व्याली सग्ीव सम्भतां तव जन्मा च काकुत्स्थ तस्य नाशाय चामरे प्रार्थितस्य हरे वंशात् अजवंशेत्य जन्मनः कुरो धैर्यं भाहो तत्र स वर्तते अवशा सती धर्म सीतां धारी दिवानिशं दिवान कामधेनोपयःपात्रे कुता मता स्वयं पानार्थं प्रेषितं तस्या पीतं चैव मृतं तथा सुरभिदुग्धपा चतुर्दुःखविवजिता जाता कमलपत्राखि वर्तते वीक्षिता उपायम् कथयाम्यद्य तस्य नाशाय राघवे वटम् कुरुष्व श्रद्धावान् अश्विने मासि साम्बतम् दवरात्रोपवासञ्च भगवत्या प्रपूजनं। सर्वसिद्धिकरं राम जप होम विधानतः मेघैश्च पुशुभे देव्या बलिम् दत्त्वा विशंसितैः दशांशम् विष्णुनाचरितं पूर्वम् आ देवेन ब्रह्मणा तथा मघैव चाचीर्णम् स्वितेन वै सुखीनारामकर्तव्यम् नवरात्रै व्रतं शुभम् विशेषेण च कर्तव्यम् पुंसा कष्टगतेन वै विश्वामित्रेण काकुस्थकृतमेतन्न संशय भृगुणाथैव शिष्टेन कश्यपेन तथैव च गुरुणा ऋतधारेण कृतम् वेतन् महाव्रतम् तस्मात् कुरु राजेन्द्र रावणस्य वधाय इन्द्रेण वृत्रनाशाय कृतम् व्रतम् मनोत्तमम् त्रिपुरस्य विनाशाय शिवेनापि पुराकृतम् हरिणा मधुनाशाय कृतम्भेरो महापते कुरु काकुस व्रतम्बेत् अतन्द्रितः श्रीराम उवाच देवीं किं प्रभावा किमावयिभद्रूहि किम सर्वज्ञोषि दयानिधिवाच शृणुरामः सदा नित्या शक्त्या सनातनी सर्वकामप्रदा देवी पूजिता दुःखनाशिनी कारणं सर्वजन्तूनां ब्रह्मादीनां रघुद्वः तस्या शक्तिं विना कोऽपि स्पन्दितुं न विष्णुपालनशक्ति सा कर्तुशक्ति नाशक्ति सा त्वया संन्याशक्ति पराशिवचिद्वस्तु सदस्य त्रये तस्य सर्वस्य या शक्ति, शक्ति, शक्ति, शक्ति तदुत्पत्तिः कुतो भवेत् न ब्रह्मा न यदा विष्णु न रुद्रो न दिवाकर न चेन्द्राद्यासुरा सर्वे न धरा न धरा सदा सा प्रकृति पूर्णा पुरुषेण परेण वै संयुता विहरत्यैव निर्गुणा शिवा सा भूत्वा स्वगुणा पश्चात् करोत्री भवनत्रयम् पूर्वं संसृत्य ब्रह्मादिं दत्त्वा शक्ति च सर्वशः तां ज्ञात्वा मुच त्यजन्तु असङ्ख्यातानि नामानि तस्या ब्रह्मादिभिक्रय गुणकर्मविधान कल्पितानि च किं ब्रुवे अकारादीक्षकारान्ते स्वर्णे वर्णे सुयोजितै असङ्ख्येयानि नामानि भवन्ति रघुनन्दन श्रीराम उवाच विधिम्बे ब्रूहि विप्रचे व्रतस्यास्य समासुतः श्रद्धावान् श्रीदेव्या पूजनं तथा संस्थाप्य जगदम्बिकाम् उपवासां कुरु रामविधानतः आचार्योऽहं भविष्यामि कर्मण्यस्मिन् मयि पते देवकार्यविधानार्थम् उत्साहं प्रकरोम्यहं वास उवाच तच्छ्रुत्वा वचनं सत्यं मत्वा राम प्रतापवान् करयित्वा शुभं पीठं स्थापयित्वाम्बां शिवां विधिवत् पूजनं तस्याे वाप्ते चाश्विने मासीत् तस्मिन् गिरिवरे तदा उपवास कृतवान् व्रतमुत्तमम् पमञ्च विधिवत् तत्र बलिदानञ्च पूजनं भ्रात्रौ चक्र तु प्रेम्णा प्रथमसम्मतम् अष्टम्यां मध्यरात्रे तु देवी भगवती किंवारूढा ददौ तत्र दर्शनं प्रतिपूजिता गिरिशृङ्गे स्थितो वाच राघवं सानुजं गिरा मेघगम्भीर्याचेदं भक्तिभावेन तोषिता देवी उवाच राम राम महाबाहो तुश्चास्मध्यवतेन ते प्रार्थयस्वरं कामं यत्ते मनसि वर्तते नारायणश्च सम्भूत तं विषेवंशे मानवेन गे रावणस्य वधायेव एव प्रार्थितः समरै स ऋषि पुरामस्यतनं कृत्वा हत्वा घोरा च रक्षसं त्वया वै रक्षता वैरासुराणामितमिच्छता भूत्वा कच्छस्तु धृतवान् मन्दरं गिरिम् एकोपारं प्रमन्तानं कृत्वा देवान् पोषय कोलरूपं परं कृत्वा दशनाग्रेण धृतवान् यद्राम हिरण्याक्षं जगान च नरसिंह कृत्वा हिरण्यकशिपं पुरा प्रह्लादं राम रक्षित्वा हतवान् राघवेस्थाय पुराच्छलितवान् बलिं भूतेन्द्रस्यानुज कामं देवकार्य प्रसादक जमदग्नि सुधस्त्वम्बे विष्णुशेन सङ्गतः कृत्वान्तं क्षत्रियाणां तु दानं भूमे रदानीं तु काकु जातो दश कृतात्मज प्रार्थितस्तु सर्वे रावणे नातिपीडितै कपयते सहाया वै देवांश बलवत्तराः भविष्यन्ति नरव्याघ्र मच्छक्ति संयुता शेषां सुप्तनुजस्तेयं रावणात्मजनाशकः भविष्यति संदेह सन्देहः कर्तव्योऽत्र त्वया, त्वया न वसन्ते सेवनं कार्यं त्वया तत्रापि श्रद्धया हत्वा रावणं परा पापं गुरुराज्यं यथा सुखम् एकादशसहस्राणि वर्षाणि पृथिवीतले कुत्रा पुनः व्यासुवाच इत्युत्वान्तर्दधे देवि रामस्तु प्रीतमानसः सम्माप्य तद्वतं चक्रे प्रयाणं दशमी दिने विजया पूजनं कृत्वा दत्त्वा दानपिबलयुक्ते सानुज श्रीपति च प्रगट्य परमशक्त्या प्रेरितय पूर्णकाम उदधितटागतोऽसौ सेतुबन्धं विधाया शत्रुम् रावणम् गीतकीर्ति याचनोति नरो भक्त्या देव्या चरितमोत्तमम् स भुक्त्वा विपुलान् भोगान् प्राप्नोति परमम्बदम् सन्त्यन्यापि सन्त्यन्यानि पुराणानि विस्तराणि बहूनि च श्रीमद्भागवतस्यास्य न तुल्यानि इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्यां संहितायां तृतीयस्कन्धे रामाय देवी वरदानं नाम श्रीशोध्याय श्रीजगदम्बिकाय अर्पणमस्तु समाप्तमिदम् तृतीयस्कन्धः